श्रीहरये नमः अथ अष्टषष्टितमोऽध्यायः श्रीसुक उवाच दुर्योधनसुतां राजन् लक्ष्मणां समितिं जयहां स्वयंवरस्तामहरत् साम्भोजां भवति सुतः कौरवा कुपितावुचोर् दुर्विनीतोऽयमर्भकः कतर्तिकृत्यनः कन्याम् अकामाम् अहरत् बलात् पद्मीतेमं दुर्विनीतम् किं करिष्यन्ति वृष्णयः योऽस्मत्प्रसादोपचितां दत्तां नो भुञ्चते महीं निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः भग्नदर्पा समं यान्ति प्राणा इव सुसंयताः इति कर्णशलो भूरेर्यज्ञकेतुः सुयोधनः साम्बमारयभिरेभद्तुं कुरु वृद्धानुमोदिताः दृष्ट्वानुधावतः शाम्भो धार्तराष्ट्रान्महारथः प्रगृह्यरुचिरं चापं तस्थौ सिंह इवैकलहा तं ते जिवृक्षभक्रतास्तिष्ठतिष्ठेति भाषिणः आसात्यधन् विनो बाणे कर्णाग्रण्यसमाकिरन् कुरुभिर्यदुनन्दनः नामृष्यत्तथ चिन्त्यार्भ सिंहक्षूद्रमृगैरिव विस्फूर्ज्यश्रुचिरं चापं सर्वान् विव्यातसायकैके कर्णादीन् षड्रथान् वीरांस्तावद्भिर्युगभत्पृथ चतुर्भिश्चतुरो भागानेकैकेन च रतिनश्च महेश्वासांस्तस्य तत्तेभ्यभूजयन् तं तु ते विरतं चक्रोश्चत्वारश्चतुरोहयान् एकस्तु सारथिं जज्ञे चिच्छेधान्यसरासनं तं भत्वा विरतीकृत्य कृष्ण्रेण कुरवो युधि कुमारं स्वस्य कन्यां च स्वपुरं जयिनो विसन् तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः कुरून् प्रत्युद्यमं चक्रोमुग्रसेन प्रचोदिताः सान्त्वयित्वा तु तान् राम सन्नद्धान् वृष्णिपुङ्गवान् नैचत्कुरूणां वृष्णीनां कलिं कलिमलापकः जगामहास्ति न पुरं रतेनाधित्यवर्चसा ब्राह्मणैः कुलवृद्धैश्च व्रतश्चन्द्रयिवग्रगैः गत्वा गजाक्वयं रामो बाह्योपवनमास्तितः उद्धवं प्रेषयामास व्रतराष्ट्रं बुभुत्सया सोऽवन्त्य अम्बिका भी पुत्रं भीष्मं द्रोणं च भाक्लिकं दुर्योधनं च विधिवत् राममागतमब्रवीत् तेदि प्राप्तं रामं सुहृत्तमं तमर्चयित्वा अभिययो सर्वे मङ्गलपाणयः तं घामर्घ्यं च न्यवेदयन् तेषां ये तत्प्रभावज्ञा प्रेणमुःसिरसा बलं बन्तुन्कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयं परस्परमथो रामो कुरुध्वं मा विलम्बितं यद्यूयं बहवस्त्वेकं जित्वा धर्मेण धार्मिकम् अपत्नीतात तन्मृष्ये बन्धूनामैक्यकाम्यया वीर्यः आत्मशक्तिसमं वचहान् कुरवो बलदेवस्य निशम्योच्चुप्रकोपिताः अहो महश्चित्रमिदं कालगत्या धुरत्यया आरुषत्युपानत्वे शिरोमुकुटसेवितं एते यौनेन सम्बद्धा सखसैयासनासनाः व्रणस्य स्तुल्यताम् नीता अस्मधत्तनृपासनाः सामरव्यजने शङ्कमादपत्रं च पाण्डुरं किरीटम् आसनं सय्यां भुञ्जन्त्यस्मत् उपेक्षयाम् अलं व्यतूनां नरदेवलाञ्छनैर्धातुः प्रीतिपैपणिनामि आज्ञापयन्त्यगतत्रपाभथ कथमिन्द्रोऽपि कुरुभेर् भीष्मद्रोणार्जुनादिभिः अतत्मवरुन्धीत सिंह ग्रस्तमिवोरणः उवाच जन्म बन्तु श्रियोस्ते भरदर्शभ आश्राव्यरामम् दुर्वाचम् असभ्याः पुरमाविशन् दृष्ट्वा कुरूणाम् दौसील्यम् श्रुत्वा वाच्यानि चाच्युतः अवोचत् दुष्प्रेक्षप्रकसन्मुहुः नूनं नानामधोन्नद्ध शान्तिं नेच्छन्त्यसाधवः केषां किब्रसमो दण्ट पशूनां लगुटो यत अकोयदून् कृष्णं च कुपितं सनैः देशां सममिच्छन् इहा तैमे मन्दमतयकलाहाभिरतकलः तं मामवज्ञायमुहोर्दुर्भाषान्मानि नो ब्रुवन् नोग्रसेन किल नोग्रसेन किल विभोर्भोजवृष्ण्यन्दकेश्वरः शक्रादयो लोकपाला यस्यादेशानुवर्तिनः सुधर्माक्रम्यते येन पारिजातोमराङ्ग्रिभः आनीय बुच्यते शोऽसौ नखिलाध्यासनार्गणः यस्य पादयुगं साक्षात् सनार्हति किल श्रीसो नरदेव परिच्छदान् यस्यापङ्गज रचो किल लोकपालैर्मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थं ब्रह्मा भवोऽहमपि यस्य कलाकलायाः श्रीचोद्व शिरमस्य नृपासनं क्व बुञ्जते गुरुभिर्धत्तं भूकण्ठं वृष्णय किल उपानहः स्वयं तु कुरवः शिरः अहो ऐश्वर्यमत्तानां मत्तानामिव मानिना असम्बद्धा गिरोरुषा कस्सखेतानुशासितान् अद्य गृहीत्वा कलमुत्तस्थो दहन्निव जगत्त्रयं लाङ्गलाग्रेण नगरमुद्भिधार्य गजाह्वयम् विसकर्ष स गङ्गायां प्रहरिष्यन्न मर्षितः जलायानमिवागूर्णम् गङ्गायां तमेव शरणं जग्मु सकुटुम्बाजिजीविषः सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुं राम राम अखिलाधार प्रभावं न विधामते मूढानां न कुबुद्धीनां क्षन्तुमर्हसि अतिक्रमं स्थित्युत्पद्ययानाम् त्वमेको हेतुर्निराश्रयः लोकान् क्रीडनकानीश क्रीडतस्तेव दन्तिः त्वमेव मूर्णीतमनन्तलीलया भूमण्डलम् बिभर्षि सहस्रमूर्धन् अन्ते च यस्त्वात्मनिरुद्धविश्व शेषे त्वितीय न द्वेषा न च मत्सराद् बिव्रतो भगवन् सत्वं स्थितिपालनतत्पराः नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय विश्वकर्मन्नमस्ते स्तु त्वां वयं शरणं गताः श्रीसुख उवाचान् एवं प्रपन्नै संविघ्नैर्वेपमानाय नैर्भलः प्रसादितः सुप्रसन्नो मां भैष्टेत्यभयं धतो दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् दतौ च द्वादश सतान् रथानां षष्टहस्राणि रोक्माणां सूर्यवर्चसाम् दासीनाम निष्ककंटीनाम सहस्रं दुहितृवत्सलः प्रतिगृह्यतु तत्सर्वं भगवान् सात्वदर्शवः ससुतस् सष्णुष प्राघात् सुहृद्भिरभिनन्दितः ततः प्रविष्ट अनुरक्तचेतसः ससं स सर्वं यदुपुङ्गवानां मध्ये सभायं कुरुषु स्वचेष्टितम् अद्यापि च पुरं ह्यतेत् सूचयत्रामविक्रमं समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते इति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्ते गस्तिनापुरकर्षणरूपसङ्कर्षणविजयो नामाष्टषष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरु महाराज कि